अथ द्वितीयः सर्गः नारदस्य तु तद्वाक्यम् श्रुत्वा वाक्यविशारदः पूजयामास धर्मात्मा सह शिष्यो महामुनिम् यथावत्पूजितस्तेन देवर्षिर्नारदस्तथा आपृच्छ्यैवाभ्यनुज्ञातः स जगामविहायसम् स मुहूर्तम् गते तस्मिन् देवलोकम् जगाम तमसा तीरम् जाह्नव्यास्त्वविदूरतः स तु तीरम् समासाद्यतमसायामुनिस्तदा शिष्यमाहस्थितम् पार्श्वे दृष्ट्वा तीर्थमकर्दमम् अकर्दममिदम् तीर्थम् भरद्वाजनिशामया रमणीयम् प्रसन्नाम्बु सन्मनुष्यमनो यथा न्यस्यताम् कलशस्ता मम इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् एवमुक्तो भरद्वाजो वाल्मीके महात्मना प्रायच्छत मुनेस्तस्य वल्कलम् नियतो गुरोः सशिष्यहस्तादादाय वल्कलम् नियतेन्द्रियः विचचारः पश्यम्स्तत् सर्वतो विपुलम् वनम् तस्याभ्यासे तु मिथुनम् ददर्श भगवा क्रौंचारुणस्वर तस्थुना देकप निश्चय जघान वैर निलो निषादस्त पश्य तमशोणिपरीतांग चेष्ट महीतले भ्यात दृष्ट् रुरावकुणा गिुक्ता पति द्विजेन सहचारिण शीर्षेण मत्तेन पत्रिणा सहितेन वै तथाविधम् द्विजम् दृष्ट्वा निषादेन निपातितम् ऋषेर्धर्मात्मनस्तस्य कारुण्यम् समपद्यत ततः करुण वेदित्वा दधर्मोऽयमिति द्विजः निशाम्यरुदतीम् क्रौञ्चीमिदम् वचनमब्रवीत् मा निषादप्रतिष्ठाम् समाः यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् काम तस्येत्थम् ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः शोकार्तेनास्य शकुनेः किमिदम् मया चिन्तयन् स शोकार्थस्य प्रवृत्तो मे श्लोको भवतु नान्यथा शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् प्रतिजग्राहसन्तुष्टस्तस्य तुष्टो भवन् मुनिः सोऽभिषेकम् ततः कृत्वा तीर्थे तस्मिन् यथाविधि तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् कलशम् पूर्णमादाय पृष्ठतो नु जगामः सप्रविश्याश्रमपदम् शिष्येण सह धर्मवित् उपविष्टः कथाश्चान्याश्चकारध्यानमास्थितः राजगामततो ब्रह्मालोककर्ता स्वयम् प्रभुः चतुर्मुखो महातेजाद्द्रष्टुम् तम् मुनिपुङ्गवम् वाल्मीकिरथ तम् दृष्ट्वा सहसोत्थाय वा प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः पूजयामासतम् देवम् पाद्यार्घ्यासनवन्दनैः प्रणम्यविधिवच्चैनम् पृष्ट्वा चैव निरामयम् अथोपविश्य भगवानासने परमार्चिते वाल्मीकये च ऋषये सन्दिदेशासनम् ततः ब्रह्मणासमनुज्ञातः सोऽप्युपाविशदासने उपविष्टे तदा तस्मिन् तद्गते तद्गतेनैव वा मनसा वाल्मीकिर्ध्यानमास्थितः पापात्मना कृतम् कष्टम् वैरग्रहणबुद्धिना यत्तादृशम् चारुरवम् हन्यादकारणात् शोचन्नेव पुनः क्रौञ्चीमुपश्लोकमिमम् जगौ पुनरन्तर्गतमना भूत्वा तमुवाच ततो ब्रह्मा प्रहसन्मुनिपुङ्गवम् श्लोक एवास्वयम् बद्धो नात्र कार्या विचारणा मच्छन्दा देवते ब्रह्मन् प्रवृत्तेयम् सरस्वती रामस्य चरितम् कृत्स्वम् कुरुत्व मृषि धर्मात्मनो भगवतो लोके रहस्यम् च प्रकाशम् च यद्वृत्तम् तस्य धीमतः रामस्य सहसौमित्रे राक्षसानाम् च सर्वशः वैदेह्याश्चैव यद्वृत्तम् प्रकाशम् यदिवारहः तच्चाप्यविदितम् सर्वम् विदितम् ते भविष्यति न ते वागमृता काव्ये काचिदत्र भविष्यति कुरु रामकथाम् पुण्याम् श्लोकबद्धाम् यत् गिरय सरत महीीतले तद कथा लोकेशु प्रचल्यम से कथात्ता प्रचरष्यमध मल्लोक निवत्सीुक् भगवान्ब्रह्म त्रैवाधीय तत स शिष्य भगवान्व्यस्मय तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमम् पुनः मोहर् मोहः प्रीयमाणाः प्राहुश्च भृशविस्मिताः समाक्षरैश्चतुर्भिर्यः महर्षिणा सोऽनुव्याहरणाद्भूयः तस्य बुद्धिर्यम् महर्षेर्भावितात्मनः कृत्स्म् रामायणम् काव्यमीदृशैः उदार वृत्तार्थ पदैर्मनोरमैस्तदास्य रामस्य चकार कीर्तिमान् समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करम् काव्यमुदार इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वितीयः सर्गः